अथ चतुष्षष्ठितमः सर्गः सुरकार्यमिदम् रम्भे कर्तव्यम् सुमहत्वया लोभनम् कौशिकस्येह काममोहसमन्वितं तथोक्ता साप्सरामसहस्राक्षेण धीमता व्रीडिता प्राञ्जनिर्वाक्यम् प्रत्युवाच सुरेश्वरम् अयम् सुरपते घोरो विश्वामित्रो महामुनिः क्रोधमुत्स्रक्ष्यते घोरं मयि देवन संशयः ततो हि मे भयम् देव प्रसादम् कर्तुमर्हसि एवमुक्तस्तया राम सभयम् भीतया तदा तामुवाच सहस्राक्षो वेपमानाम् कृताञ्जलिम् मा भैषीरम्भे भद्रन्ते कुरुष्व मम कोकिलो हृदयग्राही माधवे रुचिरद्रुमे अहङ्कन्दर्पसहितस्थास्यामि तमपार्श्वतः त्वम् हि रूपम् बहुगुणम् कृत्वा परमभास्वरम् तमृशङ्कौशिकम् भद्रे भेदयस्वतपस्विनम् साश्रुत्वा वचमन्तस्य कृत्वा रूपमनुत्तमम् लोभयामास ललिता विश्वामित्रम् शुचिस्मिता कोकिरस्य तु शुश्राववल्गुव्याहरतस्वनम् मनसा स अथ तस्य च शब्देन गीतेनाप्रतिमेन च दर्शनेन च रम्भाया मुनिः सन्देहमागतः सहस्राक्षस्य तत्सर्वम् विज्ञायमुनिपुङ्गवः रम्भाम् क्रोधसमाविष्टः शशापकुशिकात्मजः जन्माम् लोभयसे रम्भे कामक्रोधजयैषिणम् दशवर्षसहस्राणि शैली स्थास्यसि दुर्भगे ब्राह्मणस्व महातेजास्तपो बलसमन्वितः उद्धरिष्यति रम्भे त्वा मत्क्रोधकलुषीकृता एवमुक्त्वा महातेजा विश्वामित्रो महामुनिः अशक्नुबन्धारयितुम् कोपम् सन्तापमात्मनः कोपेन च महातेजास्तपोपहरणे कृते इन्द्रियैरजितैरामनले भेशान्तिमात्मनः बभूवास्य मनश्चिन्ता तपोपहरणे कृते नैवम् क्रोधं गमिष्यामि न वक्ष्ये कथञ्चन अथवा नोच्छ्वासिष्यामि संवत्सरशतान्यपि अहम् हि शोषयिष्यामि आत्मानम् विजितेन्द्रियः तावद्यावद्धि प्राप्तं प्राप्तम् तपसार्जितं। तपसार्जितम् अनुच्छ्वसन्न भुञ्जानस्तिष्ठेयम् शाश्वती समाः न हि मे तप्यमानस्य क्षयम् यास्यन्ति मूर्तयः एवम् वर्षसहस्रस्य दीक्षाम् समुनिपुङ्गवः चकारा प्रति लोके प्रतिज्ञाम् रघुनन्दना इत्यार्षे श्रीमद् रामायणे आदिकाव्ये बालकाण्डे चतुष्षष्टितमः सर्गः